श्रीमन्महाभारतं सभापर्वणि शिशुपालवधपर्वणि शिशुपालवधे पञ्चचत्वारिंशोऽध्यायः वैशम्पायन वाचा ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः युयुत्सुर्वासुदेवेन वासुदेवमुवाचः आह्वये त्वां ऋणं गच्छ मया सार्धं जनार्दन यावदद्य निहन्मि सहितं सर्वपाण्डवैः सह त्वया हि मे सर्वथा कृष्णपाण्डवाः नृपतीन् समतिक्रम्य यैरराजा त्वमर्चितः ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिं। अनर्हमर्हवत्कृष्ण वध्यास्तैति मे मतिः इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जन्नमर्षणः एवमुक्तस्ततः कृष्णो मृदुपूर्वमिदं वचः उवाच पार्थिवान् सर्वान् स समक्षं च वीर्यवान् येष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः सात्वतानां नृशंसात्मा न हितोनपकारिणाम् प्राग्ज्योतिषपुरं यातानस्मान् ज्ञात्वा दृशं सकृत् अदहद्वारकामेष स्वीयः सन् क्रीडतो भोजराजस्य एष रैवतके गिरौ हत्वा बद्ध्वा सर्वान् उपायात् स्वपुरं पुरा